श्रीहरये नमः अत एकादशोऽध्यायः सौनकमुवाच अत मे मर्तं पृच्छामो भवन्तं बहुवित्तमं समस्ततन्त्रान्ते भवान् भागवतत्त्ववेत् तान्त्रिकापरिचर्यायां केवलस्य श्रियः पतेः अङ्कोपाङ्गायुता कल्पं कल्पयन्ति यथा तन्नो वर्णय भद्रं ते क्रियायो कम्बुबुस्सतां येन क्रिया नैपुणेन ये मर्त्यो या या सूत उवाच नमस्कृत्य गुरोन् वक्ष्ये विभूतिर्वैष्णवीरपि यः प्रोक्ता भेत तन्त्राभ्याम् आचार्यैः मायाद्यैर्नवीस्तत्त्वयि सविकारमयो विराट् निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् एतत्त्वयि पौरुषम् रूपम् भूपाधौ द्यौ शिरो नभहा प्रजाभतिः प्रजनमपो नो मृत्युरीसिदुः तद्भागवो लोकपालमनश्चन्द्रो भ्रुवौ यमः लज्जोत्तरोधरो लोभो धम्ता ज्योत्स्ना स्मयो भ्रमः रोमाणि भूरोहा भूम्नो मेघा पुरुषमूर्धजाः यावानयं वै पुरुषो यावत्या संस्थयामि तहा महापुरुषो लोकसंस्थयां कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः तत् प्रभा व्यापिनी साक्षात् श्रीवत्सम्भुरसा विभुः स्वमायां वनमालाख्यां नानागुणमयीं दधत् वासश्चन्द्रोमयं पीतं ब्रह्मसूत्रं त्रिव्रत्स्वरम् बिभर्तिसाङ्ग्यं योगं च देवोमकरगुण्टले मौलिं पदं पारमेष्ट्यं सर्वलोकभयङ्करम् अव्याकृतम् अनन्ताख्यम् आसनं यदधिष्ठितः धर्मज्ञानादिभिर्योक्तं सत्त्वं पद्मविहोष्यते ऊजः सखो बलयुतं मुख्यतत्त्वं गतां अपां तत्त्वम् धरवरं तेजस्तत्त्वम् सुदर्शनम् नभोनिभं निभं नभस्तत्त्वम् असिं कालरूपं कालरूपम् धनुःशार्गम् तथा कर्म मयेक्षुतिम् इन्द्रियाणि सरानाकु आकुतीरन्धनम् तन्माद्राण्यस्याभिव्यक्तिम् मुद्रायार्थक्रियात्मताम् मण्डलम् देव यजनम् दीक्षा संस्कार आत्मनः परिचर्या भगवत आत्मनो भगवान भगवान् भगशब्दार्थम् उद्वहन् धर्मं ययश्च भगवांश्चामर व्यजने भजत् आतपत्रम् तु वैकुण्ठम् द्विजाता कुतो भयं त्रिभृद्वे यज्ञं वहति पूरुषम् अनपायिनी भगवति श्रीसाक्षात् आत्मनोहरेः विष्पक्सेनस्तत्रमूर्तिर्विदितः पार्षधाति भगा नन्दातयोष्टौ ध्वास्ताश्च तेणिमात्याहरेर्गुणाः वासुदेव सङ्कर्षण प्रद्युम्नः पुरुषम् स्वयम् अनिरुद्धयिति अर्थेन्द्रियाशयज्ञानैर्भगवान् परिभाव्यते अङ्कोपङ्कायुताकल्पैर्भगवांस्तचतुष्टयं बिभर्ति स्म चतुर्मूर्तिर्भगवान् हरिरीश्वरः द्विचरुषभस एष ब्रह्मयो निःस्पयं दृग् स्वमहिमपरिपूर्णो मा मायया च स्वयैतत् सृजति हरति पातीत्याख्यया अनावृताशु विवृत इव निरुक्तस्तत्परैरात्मलप्ययः श्रीकृष्णकृष्णसखवृष्णिरुषभ अवनिदृ राजन्यवंशदगन अनपवर्गवीर्य गोविन्द गोपवनिताव्रजभृत्य गीत तीर्थश्रवश्रवणमङ्गलवाहि भृद्यान् यगिदं कल्यवुत्थाय महापुरुषलक्षणं तच्चित्तप्रयतो जप्त्वा ब्रह्मवेदगुहाशयं सौनक उवाच सुखो यधाक भगवान् विष्णुराताय शुन्वते सौरो गणो मासि मासीना वसति सप्तकह तेषां नामानि कर्माणि ब्रोखिन ब्रूहिणश्रद्धधानानां व्यूहं सूर्यात्मनोहरेम् सूत उवाच अनाद्यविद्यया विष्णो आत्मनः निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते एक लोका सूर्य आत्मागृत क्रियामूल ऋषि कालो देश कर्ता कर्णम कार्य द्रव्यम द्रव्यं पलमिते ब्रह्म नवधोक्त जया हरि मध्वातिषु द्वादशु भगवान्दृ लोकतंत्र चरती पृथ्द्वादशे दाता कृतस्थलीह्येतेर्वासुकी रथकृन्मुने पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी अर्यमा पुलकोतौ जः प्रहेति पुञ्जिकस्थलीं नारथः कच्छरश्च नयन्त्येतस्म माधवं मित्रो त्रिपौरुषे योत तक्षको मेन शुक्रमासं नयन्त्यमी वसिष्ठो वरुणो रम्भासगजन्यस्तहुहुः शुक्रचित्रस्वनश्चैव शुचिमासं इन्द्रो विश्वाव शुश्रोता एलपत्रस्तधाङ्गिराखम्लोच राक्षसो विवस्वानुक्रशेनश्च व्याक्र आसारणो भृहुः अनुम्लोचाशङ्खपालो नभस्याख्यं नयन्त्यमी पूषादनञ्जयो वा तस्सुषेणः सुरुचिस्तता घृताची गौतमश्चेति क्रतुर्वर्चा भरद्वाजः पर्जन्यक्सेन जित्तथा विश्व ऐरावतश्चैव तपस्याख्यं न यन्त्यमे अथांशुकश्यपस्तार्श ऋतसेनस्ततोशी विद्युच्छत्रुर्म शङ्कः सखोमासं नयन्त्यमे भगस्फूर्जोरिष्टनेमिरूर्ण आयुश्च पञ्चमः कर्कोटकः पूर्वशिद्धिपुष्यमासं नयन्त्यमे त्वष्टारुचिकथनयः कम्बलश्च तिलोत्तमा ब्रह्मापेतोत्सद जिद्धृतराष्ट्र इशम्भराः विष्णुरस्वतरोरम्भा सूर्यवर्चाश्च सत्यजेत् विश्वामित्रो महापेतवूर्जमासं नयन्त्यमी केता भगवतो विष्णो आदित्यस्य विभूतयः स्मरतां सन्त्ययोर्नृणां हरन्त्यं हो दिने दिने द्वादशस्वपि मासेषु देवोऽसौ वै चरन् समन्तात्तनुते परत्रेह च सन्मतिम् सामरुग्यजुर्भिस्थल्लिङ्गैर् ऋषयसंस्तुवन्त्यमुं गन्तर्वास्तं प्रघायन्ती नृत्यन्त्यप्सरसोग्रतः उन्नख्यन्ति रथं नाघा ग्रामण्यो रथयोजकाः चोदयन्ती रथं पृष्ठे नैर्नृता लकिल्यासखस्राणि षष्टिर्ब्रह्मर्षयो मलाहात् पुरतो विमुखं यान्ति स्तुवन्ती स्तुदिभिर्विभुम् स्तु एवं ह्यनादिनिधनो भगवान् हरिरीश्वरः कल्पे कल्पे स्वमात्मानं व्यूहलोकानवद्यजः इति श्रीमद्भागवते महापुराणे द्वादशस्कन्ते आदित्यव्यूहविवरणं नाम एकादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजके जै